मुद्गलपुराणं खण्डं त्रि महोदरचरितम् अध्यायं फोर्टि टु लक्ष्मीनारायणसंवादवर्णनं श्रीगणेशाय नमः मुद्गल उवाच शृणु दक्षमहाभागचरितं विघ्नवस्य च कृष्णसङ्कथयामास पाण्डवानमिदद्युदिः श्रीकृष्ण उवाच युधिष्ठिरमहापुण्यशीलशृणुवचो महद येन त्वं सङ्गणेभ्यश्च मुक्तः सन् सुखमाप्स्यसि कथयामि समासदः सर्वविघ्नहरं पुण्यं महोदर गुणैर्युदम् एकदा देवदेवेशो विष्णोर्वैकुण्ठसंस्थितः लक्ष्म्याः सह विलासेन दिभिर्वृतः गरुडेन समीपस्थेन सदा हर्षसंयुतः अप्सरोभिश्च गन्धर्वै देवैः संसेविदो बभौ तमुवाचमहाभागं भगवन्तं सनातनं शृणोत्सु सर्वदेवेषु लक्ष्मीर्विनयसंयुता श्रीलक्ष्मीरुवाच स्वामिन्निच्छामि विज्ञप्तुं मम त्वं सततं गतिः स्त्रीणां भर्तृसमं नैवास्ति किञ्चिद्वेदभाषितम् त्वं साक्षाद्देवदेवे षङ्कराध्यैः सुसंस्तुतः षडैश्वर्यसमयुक्तो भक्तेभ्यसिद्धिदायकः देवादीनां पदप्राप्तिस्त्वत्तो नैवात्र संशयः सर्वेभ्यो भुक्तिदा त्वं मुक्तिदा तथाभवन् सर्वेषां पालकस्त्वं वै तव पादानविद्यते तदपि ध्यानसंयुक्तो भजस्ये तं वदस्व मे एकान्ते पूजयसि देवं त्वं विष्टरश्रवाः आनन्दं परमं ब्रह्म तदेवत्वं त्वं श्रुतेर्मुखाद विस्मापयदि मां चित्ते त्वया ध्यानं कृतं प्रभो अधुना च निर्लज्जा नाथ पृच्छामि नमः संशयच्छेदनार्थं मां पदविष्णो विशेषतः तीं ते पादपद्मस्य द्वन्द्वहीनः सदा मदः सर्वत्र समरूपस्त्वं सदानन्दमयस्ततः तस्मात्परं किमत्रास्ति कधं मोहयसे जनान् ध्यानेन पूजनेनैव फलं किं ते भविष्यति तथापि त्वं किमर्थं भोध्यानयुक्तोऽसि केशव श्रीकृष्ण उवाच इति प्रियावच श्रुत्वा तां प्रहस्य जनार्दनः समालिङ्ग्यप्रजानाथ उवाच चलधे सुतां श्रीविष्णुरुवाच शृणुप्रिये प्रवक्ष्यामि त्वया पृष्ठं शुभप्रदं तारकं सर्वभूतानां सर्वेभ्यसिद्धिदायकं न करोमि जनानां वैध्यानं कुलदेवं गणेशानां भजामि सर्वभावतः गुणेश्वराद्वयं देवि समुत्पन्ना महेश्वराः पञ्चदेवामहाभागे तेन संस्थापिदाः पदे गुणेशेन तपस्तप्त्वा राघितो गणनायकः गणेशेन गुणेशश्च सा पि तत्स्वपदे पुरा ज्ञानसत्तादिसंयुक्तो जातस्तद्वरदानदः सोऽपि तं भजते देवि गणेशं भक्तिसंयुधः प्रसेव्यतं महेशाना गणेशं सर्वदं वयं स्वस्वकार्यप्रवर्तकाः अतस्तम्भावसंयुक्ता भजामो नित्यमादराद सवै वै कुलदेव कुलदेवः विष्णुर्वचनमाकर्ण्या विष्णोर्वचनमाकर्ण्य लक्ष्मीर्विस्मितमानसा जगाद तमः विष्णुं विनयेन समन्विता श्रीलक्ष्मीरुवाच कोऽसौ गणेश्वरो नाम वद तस्य स्वरूपं कुलदेवस्य भजिष्यामि जनार्दन श्रीविष्णुरुवाजा सम्यक् पृष्ठं त्वया देवी शृणु तस्य स्वरूपकं वदामि स्नेहयुक्तोकं यजितं बोधयिष्यसि स्वानन्देशोऽपि वसति गणेशो ब्रह्मनायकः स्वानन्दः पञ्चथा जातशृणु कथानकम् नामरूपात्मकं देवि जगदिब्रह्मणि स्थितं तत्र स्वानन्दको योगो सद्रूपः परिकथ्यते असत्यमृदरूपं यत्तत्सदात्मप्रवाचकं सत्स्वरूपं च तद्विद्धि सत्स्वानन्दप्रकीर्तिदथा सत्यासत्यविहीनं यत् सत्यासत्यमयं तथा आनन्द आत्मकरूपं तत् समस्वानन्द उच्यते त्रिप्रबोधं त्रिभिर्हीनं मोहहीनं सदा मदं नेधिरूपं महाभागे स्वानन्दोऽव्यक्त उच्यते चतुर्णां योगभावोऽयं समाधिर्जायते किल स्वानन्दपञ्चमोह्यत्र सर्वसंयोग उच्यते स वै मायामयप्रोक्तो माया गणेशो वेदवादिभिः चतुर्था रचितं तेन तेषु केलदि नित्यदा मायाहीनतया डुण्ढिरभूत् सो योगवाचकः न तत्र कस्य संयोगो बुधैस्तस्यापि कथ्यते मायायुक्तविः न त्वं तदेव भ्रान्तिदायकम् ताभ्यां हीनो गणेशोऽयं योगरूपः प्रकथ्यते तत्र शान्तिर्भवेद्देवि योगिनां नात्र संशयः अदो योगस्वरूपा सा कथ्यते शान्तिरुत्तमा मनोवाणीमयं सर्वं गकाराक्षरवाचकं मनोवाणीविहीनं वै णकाराक्षररूपकम् तयो स्वामीगणाधीश पश्य वेदे शुजिस्मिते अतस्तं भक्तिसंयुक्तो भजेकं सर्वनायकं भ्रमरूपां महामायां सिद्धिं जानीहि मानदे सिद्ध्यर्थं सर्वलोकाश्च विभ्रमन्दीश्वरा अतः भ्रमधारकरूपां वै बुद्धिं जानीहि निश्चितम् सिद्ध्या बुद्ध्या च तत्रैव भ्रमोत्पत्तिः प्रजायते तयोः स्वामी सदा योगशान्तिरूपोऽयमुच्यते तस्यैव भजने देवी ब्रह्मभूता भवन्त्यतः इत्युक्त्वा विररामाथस्वयं नारायणः प्रभुः श्रुत्वा समुद्रपुत्री स विस्मिता मानसे भवत ॐ तत्सदि श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते लक्ष्मीनारायणसंवादवर्णनं ॐ